मुद्गलपुराण खंडम मधु अयोर् मधुकैटभवधो नाम चतुर्थोध्याय श्रीगणेशा नम मुगल उवाच तदो ब्रह्मा सर्जा सौ मुखद ब्राह्मण स्वयं बाहुभ्य क्षत्रियान् सर्वानूरुभ्यो वैश्यकांस्तथा पद्भ्य शूद्रान् महादेव ससर्जगुणप्रेरितः सन्न्यासं शिरसस्तद्वद्वानप्रस्थाश्रमम् हृतः नाभ्याश्च ब्रह्मचर्यं स जङ्खाभ्याम् गृहिताम् तथा वर्णाश्रमान् स वै दृष्ट्वाकर्षितोऽभूत् पितामहः तदो धर्मं स्वयं ब्रह्म ससर्जो रःप्रदेशदः पृष्टतो धर्मरूपं च सुरदैत्यप्रवर्तकौ तदो देवांश्च गन्धर्वानप्सरो यक्षगादिकान् असुरान् यादुधानां च ससर्ज निजदेहदः सर्पान् पक्षिगणांश्चैव पशुमानवकादिकान् क्रियायुक्तान् ससार्जासौ स्वदेहं प्रददौ ततः ते सर्वे ब्रह्मणो देहात् समुत्पन्ना महौजसः व्यवहारयुधादक्षवृधुर्न तथापि ते तेषां स्वर्गप्रमाणं च शृणु मुख्यं प्रजापते सङ्क्षेपेण प्रवक्ष्यामि प्राकृतं वै कृतं परं प्रथमो महदसर्गो ब्रह्मणः सदुपध्यते तन्मात्राणां द्वितीयस्तु भूतसर्गप्रकीर्तितः वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकस्मृतः इत्यदे प्राकृताः सर्गाः सम्भुधा बुद्धिपूर्वकाः मुख्यसर्गश्च दुर्धस्तु मुख्या वैष्टावरा स्मृताः तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यक्यो निःस पञ्चमः ततोर्ध्वस्रोतस्सां षष्ठो देवसर्गस्तु सस्मृतः ततोर्वाक्स्रोतस्सां सर्गः सप्तमः स तु मानवः अष्टमो बौद्धिकसर्गो भूतादीनां प्रकीर्तितः नवमश्चैव कौमारो ज्ञातव्यो विबुधैस्तथा विकृता षट्समाख्यादा प्राकृताश्च त्रयो मताः नवसर्गा प्रविज्ञेया प्राकृता वैकृता इमे प्राकृता ये सर्गा बुद्धिपूर्वा प्रकीर्तिताः बुद्धिपूर्वं प्रवर्तन्ते तद्वाद्यैः सर्वजन्तवः एवं सृष्ट्वा स्वयं ब्रह्म प्रजानानाविधाः प्रभो ववृधुर्न प्रजास्तस्य तेन सन्दुःखितो भवद ततस्तस्य शरीराद् वै दाम्पत्यं निःसृतं परं वामाङ्गात्मकृति रम्या शदरूपा च सा दक्षिणाङ्गात् तु सम्भूतः पुरुषः समनुस्मृतः महाभाग आद्यः क्षत्रियधर्मविद बद्धाञ्जलिपुटौ चोभौ वचो ब्रह्माणमोचदुः आज्ञां कुरु महाभाग किं कुर्यावप्रजापदे तदो ब्रह्मस्वयं जातौ तौ जबादप्रहर्षितः अतुलां सृजदं सृष्टिं मयि धुनीं तपसो बलाद ततस्तौ तं प्रणम्यादौ देपादे तपोघोरं विचिन्त्य गणपं हृदि तदो विद्धामः ततो विद्धाधृच्छाया ह्यकर्दमो मुनिसत्तमः सनुत्पन्नश्च तं दृष्ट्वा ब्रह्मो वाचसृजप्रजाः समुनिर्वनमागत्य ततापपरमं तपः विष्णुं ध्यात्वा प्रजाकामशुक्लरूपं यथाविधि एतस्मिन्नन्तरे जातौ विष्णुकर्णमलोद्भवौ मधुकैडभनामानौ दैत्यौ परमदारुणौ ताभ्यां स्वभुजवीर्येण जितं त्रिभुवनम् तदा देवा सर्वे भयोद्विघ्ना पलायन्तदिशासु च प्रमाणं भक्षितुं या तौ तेन निद्रास्तुदा तदा निद्रया विष्णुरव्यक्रो मुक्तः सनुद्धितो बभौ तेन युद्धं महाघोरं कृतं ताभ्यां भयानकं मल्लयुद्धेन तौ जेतुं न शशाकजनार्दनः पञ्चवर्षसहस्राणि युयूथे हरिरव्ययः ततो हरिं मामृतदुर्महादैत्यौ बलान्वितौ ततो विष्णुस्वमात्मानमन्तर्धाय पलायदा शरणं शङ्करं चैव ययौ भावसमन्वितः प्रणिपत्य महेशानं जगादभयसङ्कुलः वृत्तान्तं युद्धसम्भूदं जयोपायं वद स्वामी तेन सङ्कथितं तस्मै गणेशो विस्मृतस्त्वया तमाराधयत्नेन तदसि धिमवाप्स्यसि षडक्षरमहामन्त्रं गणेशाय दिवौ शिवः स ययौ देशे दण्डकारण्य से तत्र पद्मासनं कृत्वा ध्यात्वा देवं गजाननं षडक्षरविधानेन तताप परमं तपः सहस्रवर्षपर्यन्तं तपस्तप्तं सुदारुणं तदा वरदानाय विष्णुं गणपदीर्ययौ तम दृष्ट्वा प्रणनामाध पूजयामस भक्ति महाविष्णु प्रसन्ना प्रणनाम गजाननम बद्धाजलिपुटो भूतणेशरम ना सामुक्त वरद भक्तवत्सल महाुवाच नमो गणपते तोभ्यं विघ्नराजा दे नम नमः कृपानिधेर्ढुण्ढे भक्तसंरक्षकाय ते सिद्धिबुद्धिपदे तुभ्यं नमस्ते विघ्नहारिणे अभक्तेभ्यः सदा विघ्नदात्रे हैरम्बरूपिणे निर्गुणाय गुणानां वैचालकाय नमो नमः नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते ब्रह्माभ्यो ब्रह्मदात्रे च ब्रह्मणे ब्रह्मरूपिणे नरकुञ्चररूपाय नानामायामयाय ते कारणानां च देवे कारणाय नमो नमः ज्येष्ठराजाय वैदुभ्यं कारणैरहिताय च योगिनां कृतिसंस्थाय योगिभ्यो योगदायिने योगरूपधरायैव गणेशाय नमो नमः मायाश्रयाय माया आधाराय नमो नमः मायिभ्यो मायया त्वं वै मोहदादा नमो नमः त्वां स्तोतुं कः समर्थ स्याद्योगाकारेण वर्तसे यत्र वेदाविकुण्ठाश्च आस्त्रै सर्वैः सहाङ्गकैः मनोवाणी विहीनस्त्वं नहि देवकृपाकर मनोवाणी मयो नैव कथं त्वं स्तौमि विघ्नपं तथापि बुद्धिदादा त्वं त्वत्प्रसादेन संस्तुतः धन्योऽहं देवदेवेश तव दर्शनतोऽधुनः साक्षात् दृष्ट्वा गणेशं त्वां तेनाहं ब्रह्मरूपकः जादो नास्त्यत्र सन्देहो योगेन्द्रो योगदायकः युक्त्युक्त्वा तं प्रणम्यासौ त्वनृत्यभक्तिभाविदः रोमाञ्चितशरीरश्च हर्षाश्रुभिरपिप्लुतः तमुवाचगणाधीशो वरं वृणुजनार्दन तपसा भक्तिभावेन तुष्टो दास्यामि वाञ्छितं त्वया स्तोत्रं सर्वसिद्धिप्रदायकं भविष्यति नृणां विष्णो पठदां शृण्वतां सदा धर्मार्थकाममोक्षाणां साधकं प्रभविष्यति ईप्सितार्थप्रथं सद्यप्रसादान्मेच केशव मुद्गल उवाच गणेशवचनं श्रुत्वा विष्णुर्हर्षसमन्वितः जगादतं प्रणम्यादौ वाञ्छितं संवृणे त्विधि विष्णुरुवाच यदि प्रसन्नतां यादस्तदा भक्तिं सुदुर्लभा तव पादयुगे देहि दृढामव्यभिचारिणीम् अन्यद्देहि गणाधीशज्ञानं मे श्यतुलं तथा कीर्तिं सर्वत्र मे देहि सामर्थ्यं विविधं तथा मधु कैटभनाशार्थमुपायं वदसाम्भ्रतम् अन्यद् दैत्याभिखनने सामर्थ्यं देहि विघ्नप तस्य तद्वचनं श्रुत्वा तथेधि गणकोऽब्रवीद युद्धाय गच्छ देवेश दैत्यौ जेष्यसि तौ मरणमत्यन्द तयोर्ममत्यन्तसुगुप्तं ब्रह्मणाकृतं समये वरदानस्य तपसा तोषितेन च स्वमुखेन यदा मृत्युं दैत्यौ तौ कथयिष्यतः तदा तेन प्रकारेण जहि दैत्यौ महाबलौ अहम्मायां समाश्रित्य तयोस्तव हृदि प्रभुः वासं कृत्वा तवा धीनौ करिष्यामि न संशयः मदीयस्मरणं चित्ते करिष्यति भवान् जयोपायं तदा विष्णो ज्ञास्यसे दैत्यनाशकम् एवमुक्त्वा दर्दथे सौ गणेशो ब्रह्मनायकः विष्णुस्तत्र स्थापयामास सुद्विजैः पूजयामासतां मूर्तिमुपचारैः सुपुष्कलैः सिद्धिक्षेत्रं सुविख्यातं तदा देःप्रबभूवः अनुष्ठाने कृदे तत्र नानामिद्धिकरं परं क्षेत्रं बभूव विख्यातं गणेशं सिद्धसेवितं तत्र विष्णुः सदा वासं चक्रे सदारपरिवारेणा पूजयन्नित्यमादराद तं प्रणम्य गणाधीशं ययौ युद्धाय सत्वरः गणेशमनसाध्यात्वा तौ चिच्छेदमहाबलौ ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एककदंतचरी मधु वधो नाम चतुर्द्याय ओं